दुर्ग अष्टोत्तरशतनामावलि ॐ श्रियै नमः ॐमायै ओम नमः ॐ भारत्यै नमः ॐ भद्रायै नमः ॐ शर्वण्यै नमः विजयायै नमः ॐ जयाय नमः ॐ वाण्यै नमः ॐ सर्वगताय नमः गौर्यै नमः ॐ वाराह्यमः ॐ कमलप्रियाय नमः ॐ सरस्वत्यै नमः ॐ कमलाय नमः ॐ मायायै नमः ्यै नमः ॐ अपराय नमः अजाय नमः शाङ्कभर्यै नमः शिवायै नमः ॐ चण्डाय नमः ॐ कुण्डल्यै नमः ॐ वैष्णव्यै नमः ॐ क्रियायै नमः ॐ श्रियै नमः ॐ ऐन्द्रय नमः मधुमत्यै नमः ॐ गिरिजायै नमः ॐ सुभगायै नमः ॐ अम्बिकायै नमः नमय नमः ॐ पद्मावत्यै नमः ॐ हंसाय नमः ॐ पद्मनाभसहोदर्यै नमः ॐ अपर्णाय नमः ललिताय नमः त्र्यै नमः ॐ कुमार्यै नमः ॐ शिकवाहिन्यै नमः ॐ शाम्भव्यै नमः ॐ सुमक्यै नमः ॐ मैत्र्यै नमः त्रिनेत्राय नमः ॐ विश्वरूपिण्यै नमः ॐ आर्याय नमः ॐ मृडान्यै नमः ेंकार्यै नमः ॐ रोदिन्यै नमः ॐ सुदिनाय नमः ॐ अचलाय नमः ॐ सूक्ष्मायै नमः ॐ परात्पराय नमः शोभाय नम ओवर्णय नम ओ महालक्ष्म्य नम महासिद्धयै नमः ॐ स्वदायै नमः ॐ स्वाहाय नमः ॐ मनोन्मन्यै नमः ॐलोकपालिन्यै नमः ॐ उद्धूताय नमः त्रिसन्ध्यायै नमः ॐ त्रिपुरान्तक्यै नमः ॐशक्त्यै नमः ॐ त्रिपादायै नमः दुर्गायै नमः ॐ ब्राह्मय्यै नमः ॐ त्रैलोक्यवासिन्यै नमः ॐ पुष्कराय नमः ॐ अत्रिसुताय नमः ॐ गूढाय नमः त्रिवर्णाय नमः ॐ त्रिस्वराय नमः ॐ त्रिगुणाय नमः ॐ निर्गुणायै नमः ॐ सत्याय नमः ॐ निर्विकल्पाय नमः निरञ्जिन्यै नमः ॐ ज्वालिन्यै नमः ॐ मालिन्य चर्चायै नमः क्रव्यादोपानिबर्हिण्यै नमः ॐ कामाक्ष्यै नमः ॐ कामिन्यै नमः ॐ कान्ताय नमः ॐ कामदायै नमः ॐ कलहं कलहंसिन्यै नमः ॐ सलज्जायै नमः ॐ कुलजाय प्राज्ञै नमः प्रभायै नमः ॐ मदनसुन्दर्यै नमः ॐ वागीश्वर्यै नमः ॐ विशालाक्षै नमः ॐ सुमङ्गल्यै नमः ॐ काल्यै नमः महेश्वर्यै नमः ॐ चण्ड्यै नमः ॐ भैरव्यै नमः ॐ भुवनेश्वर्यै नमः ॐ त्यायै नमः ॐ सानन्दविभवायै नमः ॐ सत्यघानाय नमः ॐ तमोपहायै नमः ॐ महेश्वरप्रियङ्कर्यै नमः महात्रिपुरसुन्दर्यै नमः ॐ दुर्गापरमेश्वर्यै नमः इति दुर्ग अष्टोत्तरशतनामावलिसम्पूर्णम्